अथ त्रिषष्टितमः पूर्णे वर्षसहस्रे तु व्रतः महामुनिम् अभ्यगच्छन् सुराः सर्वे तपः फलचिकीर्षवः महातेजा ब्रह्मा सुरुचिरम् वशः ऋषिस्त्वमसि भद्रन्ते स्वार्जितैः कर्मभिः शुभैः तमेव पुनरभ्यगात् विश्वामित्रो महातेजा भूयस्तेपे महत्तपहा ततः कालेन महता मेनका परमाप्सराः पुष्करेषु नरः श्रेष्ठस्नातुम् समुपचक्रमे तान्ददर्श महातेजा मेनकाङ्कुशिकात्मजः रूपेणाप्रतिमान् तत्र विद्युतम् जलदे यथा कन्दर्पदर्पवशगो मुनिस्तामिदमब्रवीत् अप्सरस्वागतम् तेऽस्तु वसचेह ममाश्रमे अनुगृह्णीष्व भद्रम् ते मदनेन विमोहितम् इत्युक्त्वा सा वरारोह तत्र वासमथाकरोत् तपसो हि महाविघ्नो विश्वामित्रमुपागमत् तस्याम् वसन्त्याम् वर्षाणि पञ्च पञ्चचराघवा विश्वामित्राश्रमे सौम्ये सुखे नव्यतिचक्रमुः अथ तस्मिन् विश्वामित्रो महामुनिः सव्रीड इव संवृत्तश्चिन्ता शोकपरायणः बुद्धिर्मुनेः समुत्पन्ना सामर्शा रघुनन्दना सर्वम् सुराणाम् कर्मैतत्तपोपहरणम् अहोरात्रापदेशेन गताः संवत्सरा दशा काममोहाभिभूतस्य विघ्नोऽयम् स निश्वसन्मुनिवरः पश्चात्तापेन दुःखितः भीतामप्सरसम् दृष्ट्वा वेपन्तीम् प्राञ्जलिम् स्थिताम् मेनकाम् मधुरैर्वाक्यैर्विसृज्य कुशिकात्मजः उत्तरं पर्वतम् राम विश्वामित्रो जगामः सकत्वा नैष्ठिकीम् जेतुकामो महायशाः कौशिकीतीरमासाद्यतपस्ते पेदुरासदम् तस्य वर्षसहस्राणि घोरं तप उपासतः उत्तरे पर्वते राम देवतानामभूद्भयम् आमन्त्रयन् समागम्य सर्वे सर्षिगणाः सुराः महर्षिशब्दम् लभताम् साध्वयम् कुशिकात्मजः देवतानाम् वचश्रुत्वा सर्वलोकपितामहः अब्रवीन् मधुरम् वाक्यम् विश्वामित्रम् तपोधनम् महर्षे स्वागतम् वत्सतपसोऽग्रेण तोषितः महत्तमृषि मुख्यत्वम् ददामि तप कौशिक ब्रह्मणस्तुव च श्रुत्वा विश्वामित्रस्तपो धनः प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ब्रह्म ऋषिशब्दमतुलम् स्वार्जितैः कर्मभिः शुभैः यदि मे भगवन्नाह ततोऽहम् विजितेन्द्रियः तमुवाच ब्रह्मा न जितेन्द्रियः यत स्व मुन शादूलुक्विप्रथिषु देश विश्वाबारालंबो विश्वामित्रो घे पंच तू्वा वर्षा स्वाकाश संश्रय शिशिसलिशाई रात्र्य तपोधन वर्ष सहस्रं तपो घोर मुगमत तस्त्यने तो विश्वामुनौ सन्तापः सुमहानासीत् सुराणाम् वासवस्य च रम्भामप्सरसंशकः सर्वैः सहमरुद्गणैः उवाचात्महितम् वाक्यमहितम् कौशिकस्य च इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे त्रिषष्टितमः सर्गः